हरि ॐ एदमवन्म देवय जनं पृथिव्यारत्र देवासो अरुहन्त इमा आपाः समुमे सन्तु देवीरोगेत्राः स्वस्वदिते मयि नग्मु हिग् शीः आपो अस्मान्मातराः शुन्धयन्तु हृतेन ननु विश्वगुहि प्रं प्रवहन्ति देवी रुदिदाभ्याः रुचिरापूत एमि दीक्षा तपसोऽस्तनुरसितान्त्वा शिवासगमां परिदधि भद्राम्बरणं भुक्षन् महीनांोदाचो मे देहि क्षुदाधिक्ष देवर्मा पुनापचर्मा पुनादेव माँ सविता पुनास्विद्रेण पवित्रेण सूर्य सेश्मी ते पवित्रपद पवित्र पूज्य ऋत्कामुने आवो देवास ईमहे वामं व्रजत्यध्वरे आवो देवास आशिहोरज्ञासो हवामहे स्वाहाजज्ञं मनसाः स्वाहोरोरन्दर्क्ष स्वाहा द्यावापृथिवीभ्यागु स्वाहा वातादारवे द्यावा स्वाहा आपूज प्रयुजे नए स्वाहा मेधाई मनसेवाहा दीक्षा तवसेन स्वाहा सरस्वत पूये स्वाहा आपो दीर्ृहदीर्श्व शंभुवो दवापृथिवी पुरो अंतरक्षो बृहद्वदयेऽविघाभिधेमस्माहा विश्वो देवस्य नेतुर्मर्तुबुरीदध्यं विश्वो राय इद्युम्नं प्रेणीदुक्यजे स्वाहा ऋक्षामयोः शिल्केष्ठस्ते वामारभेते मा पातमास्य दृत्यस्योदृचा शर्मा शर्म मे लक्ष नमस्ते अस्तु मिपूर पूर्वश्यासूर्ण मृदा ऊर्ज मिधेहि सोमश नीविष्णो शर्मा शर्म जजमानेन्द्र से जो निरधि शुष्स्कृति उच्रज्भ वो माशुस आजा व्रतांग्रेणुद्रताेणुताग निर्ब्र जो वृद्विजत दैवी ध्य मदा महेशी कामे प्रचोदान सकू सुतीर्था नो अध्वसे ये दे देवामनुजातामनुयुजो दक्षप्रदवस्ते नो वन्तु देनाः पाण्डु देव्याः स्वाहा स्वात्राः पीता भवत यूयमापोऽस्माकमन्तरुदरेषु सेवाः सा अस्मभ्यमलक्ष्मा अनमीवा अनागसाः स्वदन्धुदेवीरमृता वृता वृथाः इयं दे रक्निया तनु रपुमुमि न प्रजामो अग्हो चाः स्वाहा वृताः वृजिवीमाविशत वृजिव्या शम्भो ग्नेत्वकुं सुजागृह्वयकुंषु मन्दि भीमहि रक्षाणो अप्रच्छन् ब्रवीनाः पुनस्कृति पुनर्मनः पुनरायुर्मागन् पुनः प्राणाः पुनरात्मागन् पुनश्चक्षु पुनः श्रोत्रम् आगन् वैश्वानरो अदग्रस्तनूपा अग्निरुन्दाः पातु दुरितादवद्यातु त्वमग्निव्रत वा अधिदेवामर्येख्वा त्वं यत्ने क्विड्याः राे यक्षो भूयो भरदेवोलाः सविताभ्यसुर्दाताभ्यस्वदातुम् एघा ते शुक्रतनुरे तद्वर्जस्तया संभवभ्राजं गच्छता मनसा दृष्टा विष्णवे तस्यास्ते सत्यशवशा प्रसवे तन्वोजन्द्रमजीयस्वाहा शुक्रमधि चन्द्रमस्यामृतमधिमसि श्रीरजिमना हिधिरधिरक्षिणाधिक्षत्रिया झिरथियास्य जिजिरक्षुभयताः क्षीरतिं स्वाः शुब्राजि शुभ्राजि चेजिमित्रिवज्जीतां पूपान्द्रायाध्यक्षाय अनुत्वा मातामन्यतामनुपिता दुभ्राता सगर्भ्योऽनुसखा सयूच्याः सा देवि देवमच्छेहीन्द्राय सोमपूर्जसावर्तय ऋषिरोम सखा पुनरेहि बध्यस्य गितिरस्यादित्याधिताधि चन्द्राधि बृहद्पविश्वासु नेरं रातूर्जुह्वसुभिराचके अदित्यास्वा मूर्धन्नादिहर्मिदेवयजनी पृथिव्यापि राजास्तदमगिरित स्वाहा अस्मे रं स्वास्मे ते बन्धुत्वे रायो मे रायो मा वय रायसो मे रव्यक्मतो रायाः समखे देव्याभियादं दक्षिणयो रुचक्षसा माम आयुः प्रमो धीर्मोऽहन्तव वीरं विधेय तव देवि सन्दृशी माय ब्रूता देहते भाव इति मेषो मालब्रूतादेहते जागतो भाव इति मेषो मालब्रूताच्छन्दो नामानाग्नसाम्राज्यं गच्छेति मेषो मालब्रूतादास्माको जिरुपस्थे ग्रह्यो बिजिरत्वाभ्युचिन्वन्तु अवित्यन्देवपुंसहितारमुन्योः कविक्रतुमर्तामि नृत्यवं रत्नदामविप्रियं मतिं कविं पूर्भारत्यामगुर्भा अदिद्युतच्छविमनिहिरण्यपाणिरमि दु क्रतुः कृपा स्वाहा प्रजाभ्यस्त्वा प्रजास्तानुप्राणन्तु प्रजास्त्वमनुप्राणिः शुक्रन् त्वा शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतमममृतेनो सग्मेते गोरश्मेते चन्द्राणि सबदस्तनूरधि प्रजापदिर्वर्णाः परमेण पशुना क्रियधेदस्तबोभं बुभेयं मित्रो न एहि सुमित्रग इन्द्रस्योरुमाविश दक्षिणं शन्नुषन्दुष्यो नः बंभारी स्वानव्राजाङ्घारे बंभारे हस्तसुहस्तवेः सोमक्रयणास्तान्दध्वं मा, मा वोदभन् परिमाग्निश्चरिदाद्बाध स्वामाशुतरिते भजो उदायुघस्वायुगोदस्ताममृतां अनु प्रदिबन्धामवद्महि सति वा मनेहसम् ेन विश्वाहा परिविहो वृणत्य बिन्दते वसु अदित्यात्मगस्य अदित्यैषद आसीदो अस्मनाज्ञां मृषभो अन्तर्क्षमीमीद परिमाणं पृथिव्याः आसीद विश्वा भुवनानि सम्राट विश्वेत्तानि वने भुव्यन्द ऋक्षन्ददालवाजमवत्सु वरश्रियासु ऋच्छुक्रतुम्बरुनुभ्युक्ष्वग्निन्दिवि सूर्यमदधाक्षोमवत्रौ सूर्यश्च रक्षुरारोहाग्ने रक्षाः कनीनकं यत्रैतशे भीरीयसिभ्राजमानुविवस्थिताम् पुश्रावे तन्धुरे दाहौ युज्ये धाम नष्टु अविरहणं ब्रह्मचूदनु स्वस्ति रजमार्चन्वक्षं भद्रो मेधिप्रत्य भुवस्मदे मात्वा परिपरिणुब्दन् मात्वा परिपन्थिनुविदन् मात्वा वृका अगायबुब्विदन् येनो भूत्वा परावत जजमाक्षरिह्यान् गच्छतन्नं संस्कृतं न मो मित्रस्य वरुण्य दक्ष दे महो दूरे दिषे देवजाताय वेतवेदिवस्तुत्राय सूर्याय जुंसतो वरुणस्योत्तम्भनमदिवरुणस्य तम्भ सृजनीष्ठोद्वरुणस्य ऋतसदन्यवरुणस्य ऋतसदनमधिवरुणस्य ऋत सदनमासीदो जाते धामानि हविखा यजन्ति ता ते विष्मा परिभूरतुर्थम् वस्पानाः प्रतरणाः सुवीरो वीराः प्रतरासो मधुर्जान्नो इति चतुर्थः